मुद्गलपुराणं खण्डं नयन योगचरितम् अध्यायं फैव् सार्वभौमयोगं श्रीगणेशाय नमः दक्ष उवाच धन्योऽहं कृतकृत्योऽहं कृतस्त्वया महामुने येन गणेशमाहात्म्यं श्रावितं योगदायकं गणेशगीतासारादि कथितं तु विशेषतः ज्ञानं योगप्रदं पूर्णं सङ्क्षेपेण त्वया परं तन्न बुद्धं मया सर्वमतः सौलभ्यतो वद योगं क्रमयुधं पूर्णं येन योगी नरो भवेद सूत उवाच एवं पृष्टो महायोगी मुद्गलस्तमुवाच यद हर्षणमहदा युक्तस्तत्तेहं कथयामि तु मुद्गल उवाच धन्योऽसि कृतकृत्योऽसि साक्षाद्गणपदे किल विभूदिवाचकस्तत्र न चित्रमिदमुत्तमं त्वया पृष्टमहाभाग सुलभत्वेन योगशान्तिपदप्रदं कथयामि च दे प्रीत्या गुह्यं वेदरहस्यकं शृणुष्वै गमनादक्ष योगं शान्तिप्रदायकं चित्तं पञ्चविधं प्रोक्तं तेषु पञ्चविधो सरसं चित्तमुत्सृज्य योगी भवति क्षिप्तं मूठं च विक्षिप्तमेकाग्रं च निरोधकं चित्तं पञ्चविधं विद्धि जगत्सुब्रह्मसुस्थितं वृष्टिभावेष्टिदायेदु जन्दवो विविधात्मकाः लक्षचतुरशीदिषु योनिषु सम्भवा किल देह भोगादी मगेशु कुशला सवि तुस्वस्व प्रपंचु नापरायण तैयार नि्य प्रकाशन प्रकाशयद त्रि तेन कार्य दक्षास्ते भवन्त्यत्र न संशयः तदेव क्षिप्तसंज्ञं त्वं चित्तं जानीहि मानद केचित् स्वल्पज्ञकास्तेषु केचिज्ञानाधिका मदाः केजिदेवं तु नानाभेदाश्रिदा नराः त्रिविधेषु विभागेषु स्थिता नानाविभेदः नानाज्ञानयुधास्तेषां रूपं न कथितुं क्षमं लक्षचतुरशीदिषु जन्तवो विविधात्मकाः वृष्ठिस्तात् सर्वकार्येषु ज्ञानहीना भवन्ति ते मूठा कथ्यदे लोकैर्विषये चतुरैः सदा तेषु नानाविधा भेदा अल्पाधिकसुमध्यमाः ेषां प्रकाशकं चित्तं नानामूढस्वभावकं तदेव मूढसंज्ञात्यं चित्तं ज्ञातव्यमञ्जसा परैः सम्बोधितो जन्तुर्न बुबोधविचारदः कार्यं नानाविधं तस्य चित्तं मूढं प्रकीर्तितं व्यष्ठिस्ता येन दक्षस्वधर्मनिरदाः सदा नाना तपःपरा भूत्वा मुक्तिमिच्छन्ति शाश्वतीं विषयेषु विरज्यैव सदा ब्रह्मपरायणाः कुर्वन्ति विविद्धं कर्माहर्निशं मुक्तिकारणात् तदपि ब्रह्महृदये न दृष्टं तैर्महात्मभिः न संसारसुखे चित्तं तेषां रमदि कर्षिचित् अधो विक्षिप्तचित्तास्थे मदा योगिजनैः पुरा ब्रह्मार्पणक्रिया सर्वा कुर्वन्त्यन्धरबाह्यजाः विशेषेणैव क्षिप्तोऽहं संसारे मायया सदा विकतक्षेपणं सर्वे नानासाधनभावतः तेषां मुक्त्यर्थमत्यन्तं प्रकाशयदि भावनां चित्तं क्रियात्मिकां तेन विक्षिप्तं तत्प्रकीर्तितं तत्र नानाक्रियायाश्च सामर्थ्येन विमोहितः जानादि देवतां तुष्टां ममोपरि न कदा देवप्रसादादिगृह्यविक्षेपसंयुगः अनाधारां प्रियां कुयोदेवाज्ञावशगो मुधा स्वप्नेषु विविधान् भावान् पश्यति तद्गदचेदसा सत्यं स्वप्नं मदीयं तु मान्यं तादृश्यजं चरेत एवं विक्षिप्तभावेन मोहितः स कदाचन अनाधारं करोत्येव नानातपःप्रभावदः समष्टिव्यष्टिसंस्तं यच्चित्तं वैराटकं परं तेन वृष्टिं समाव्याप्य भुङ्क्ते विविधं सुखं वैराटस्य क्रियाप्रोक्ता व्यापिका शास्त्रसम्मते तत्र व्यापकभावस्य चित्तं प्रकाशदं मतं तत्त्वेषु विविधेष्वेव स्थूलसूक्ष्मादिकेषु च व्यापकभावकाश्यत्वा चित्तं तेषु स्थितं मतं समष्टिव्यष्टिसंयोगेऽन्नं ब्रह्मस्थूलकं परं तथा स्वप्नगदं सूक्ष्मं सौक्षुब्धं समसं स्थितं चेतनाभावकं पूर्णं तद्वन्नादात्मकं मदम् अस्मिताख्यं परं ब्रह्म तेषु चित्तं प्रकीर्तितं समष्टिव्यष्टिभागस्य तयोरैक्यस्य च प्रभो प्रकाशकारकं विद्धि चित्तमेकाग्रसंज्ञितं समष्टिव्यष्टिभावेषु न भिन्नं तेनैकाग्रं समाख्यातं चित्तं तज्ज्ञानकारकम् देहश्च दुर्विधप्रोक्तस्थूलसूक्ष्मः समात्मकः अस्मिताख्यश्च दुर्धश्च तेषु देही स्थितो मदः देहेषु जीव इत्यभिधीयते मोहकेनः स एवापि जीवशिवात्मिका सञ्ज्ञा देहिनो भ्रममात्रतः तत्र जीवशिवाकारभावप्रकाशकारकं चित्तमेकाग्रसंज्ञाख्यं तिष्ठति देहि विद्यते न दे। वै देह योगिनां मदे चतुर्णां वपुषां यत्र ब्रह्माकारेण जायते संयोगो बिन्दुरूपं तज्ज्ञातव्यं ब्रह्म चतुष्पदं बुद्धै प्रोक्तं चतुर्भिर्वर्जितं सदा देहानांख्यातं नानादेहस्वभावकं तत्र चतुष्पदाकारभावप्राकाशकारकं चतुर्भिर्वर्जितस्यैव चित्तं तिष्ठति तद्गतं देहेषु न भवेद्भिन्नं सर्वगमात्मभावतः निरोद्धं कथ्यते चित्तं बिन्दुधर्मप्रकाशकं जीवशिवात्मभावस्थं मोहीनं सदात्मगं ब्रह्मसौखं समाख्यातं सदा भ्रान्तिविवर्जितं तत्र जीवशिवाकारमोहीनप्रकाशकं चित्तमात्मस्वरूपस्थं निरोधं कथ्यदे बुधैः देहदेहि समयोगस्वद उद्दानमुच्यते दे बोधात्यं द्वन्द्वभावेन ब्रह्मखेलकरं सदा तत्र निरोधकं चित्तं तस्य रूपं वदाम्यहं सङ्क्षेपेण प्रजानाद शृणु भावसमन्वितः बाह्यं स्थूलम् समाख्यातमन्तरं सूक्ष्मगम्मदं बाह्यान्तरैकभावस्तमानन्ददेहगम्भरं त्रिभिर्हीनं प्रयाणं च चालकं ह्यस्मितात्मकम् अहमानु भवे नैत ज्ञातव्यं योगिनां हृदि तेषां संयोगभावे य चतुर्णां बहुषाम् परं सर्वात्मकं भवेद्ब्रह्म पञ्चमं बिन्दुसंनिधं चतुर्था नरस्यैव कल्पना हृदि संस्थिता अतः परं न कल्पना बिन्दुत्यागे निरालम्बं चित्तं भवति सर्वदा सततं सत्समाख्यातं ब्रह्मध्याद्रुविहीनदः न किञ्चित् ज्ञायते यत्र भेदहीनप्रभावदः सोऽहं मात्रात्मकं चित्तं निरालम्बसमाधितम् चित्तं चतुर्था देहि संश्रितम् अवलम्बनहीनं तद्देहि चिन्मयं भवेद् निरालम्बपरित्यागेऽधिक संरोधनं भवेद चित्तस्य देहदेहिभ्यां हीनत्वान्नात्र संशयः मनोवाणीविहीनं तच्चित्तं ज्ञातव्यमादराद अस्ति नास्ति विहीनत्वाद्धाधाराधेययोगतः अवलम्बनयोगो न पञ्चधा योगिनां हृदि निरालम्बनगन्दस्मान् मनोवाणी विवर्जितम् बोधेन बुध्यते सर्वं निरालम्बं समाधिना अवलम्बनकं तद्वद्बोध बोधो न विद्यते बोधात्मकं ब्रह्म देहदेहि समाधिगं देहदेहि समयोगप्रकाशं चित्तमुच्यते देहसौख्यं प्रजानादिदेहि सौख्यं निरन्तरम् तयोर्योगे च यत्सौख्यं जानाति ब्रह्मबोधनं पदानां बोद्धभावेन पदार्थानां विशेषतः उत्थानं जायते तस्मात् स्वद उद्धानमुच्यते सुखं ज्ञात्वा समुद्धानं स्वयमेव करोधियः देहदेहि च सृष्ट्वा स खेलधिब्रह्मतत्परः तत्रोद्धानप्रकाशाख्यं चित्तं निरोधसंज्ञकं तिष्ठत्यत्र न सन्देहो ज्ञातव्यं योगिनां हृदि बोधत्यागे समाख्यातं ब्रह्मसाङ्ख्यं प्रजापदे कस्संख्यां कुरुदे तस्य बोधनाश्यप्रभावतः उत्थानवर्जितं ब्रह्मसाङ्ख्यं साक्षिस्वभावगम् बोधहीनात् कदा तत्रोद्धानं नैव प्रजापदे प्रकृतिसम्भवं बोधं तयोः पुरुषसम्भवं योगसौख्यं न जानाति साङ्ख्यं बोधविहीनतः बुद्ध्वा सुखं नरस्यैवोद्धानं यथा प्रजापदे तथा मायासुखं ज्ञात्वा ब्रह्मणोद्धानकं भवेद तथा परत उद्दानं साङ्ख्ये नित्यं प्रतिष्ठितं तत्र योगं प्रवक्ष्यामि जनयोगी नरो भवेत् यद्युत्थानसमयुक्तं भवति चेत्तदा भवेद् उत्थानवर्जितं दक्ष तदेवं बीजमाद्यकम् उत्थानहीनभावेन सदा साङ्ख्यं विराजति स्वयं चश्वत उत्थानं निःसृतं तत्प्रभावतः कृतं चैदत्तथाप्युत्थानहीनतः स्वयं च स्वत उत्थानं जायते संशयः यदा नृतं भवेद्दक्ष तदा सत्यं प्रकीर्त्यते एकं ब्रह्म यदा सत्यं तत् केन कथ्यते न दृष्टमनृतं येन न जानाति स सत्यकं सदा तादृशरूपत्वादेकभावप्रदर्शनाद अध उत्थानहीनत्वं धृतं तेन विशेषदः स्वद उत्थानभावाख्यं स्वयमेवोपजायते न कृतं तेन साङ्ख्येन स्वयमेव विनिसृतम् अधः परद उत्थानं प्राप्तं तत्र न संशयः संख्याहीनप्रकाशाख्यं चित्तं तत्र प्रवर्तते बोधहीनप्रकाशेन ज्ञायते तन्निरोधकम् उत्थानेन युतं ब्रह्मबोधमयं प्रकीर्तितं साङ्ख्यमुत्थानहीनं च तयोर्योगे निजात्मकं स्वधपरद उत्थानं तत्र नैव प्रजापदे जगदां ब्रह्मणां योगे भवति स्वस्वरूपकं स्वस्वरूपात् परो नास्ति संयोगस्तन्मह्यः कदा स समाधिसमाख्यादो ब्रह्मण्यस्यान्वयात्मकः स्वकीया भेदभावस्य तत्र प्रकाशकारकम् चित्तम् निरोधसंज्ञम् तु तिष्ठत्यत्र न संशयः संयोगपञ्चधा दक्ष भवति शृणुरूपकम् तस्य भिन्नम् प्रवक्ष्यामि लोकानाम् हितकारणात् येदे भेदसमाख्याता योगेन लयताम् ययुः स्वसंवेद्येन सन्देहस्तेन सृष्टाश्च पालिताः एतेषां रूपमस्ताय खेलतिस्वस्वरूपकं नानालीलाकरं प्रोक्तं तदेवं वेदवादिभिः उत्पत्तिनाश्च संयुक्ता भेदा ये मनीषिभिः तेषां निजस्वभावत्वादशत् स्वानन्द उच्यते तद्ब्रह्मशक्तिरूपाख्यं ज्ञातव्यं भेदधारणाद तत्रा सत्काश्यभावेन चित्तं तिष्ठति निश्चितं यदमृदं ब्रह्म कथ्यते यदेषां जीवनं नित्यं तच्च तत्स्वस्वरूपकं तद्ब्रह्म सौरमाख्यादं भेदहीनः प्रभावदः तत्र नित्यस्य चित्तं निरोधकं मदम् असत्सद्विविधं प्रोक्तं तयोर्योगे समात्मकं स्वसंवेद्यं परं ब्रह्म विष्णोर्द्वन्द्वप्रवेशनाद तत्रानन्दप्रकाशाख्यं चित्तं निरोधसंहितं तिष्ठते तेन योगीन्द्रास्तं गच्छन्ति समाधिनां त्रिभिर्हीनं त्रिभिर्युक्तमव्यक्तम् नेदिकारकं मोहहीनप्रभावेण तुरीयं ब्रह्म कथ्यते दे। तदेव शिव सञ्ज्ञाख्यं ज्ञातव्यं योगसेवया तत्र नेतिप्रकाशाख्यम् चित्तम् तिष्ठति तद्गतम् त्रिविधमोहसंयुक्तम् मोहहीनम् च दुर्धकम् तेषाम् संयोगभावे वैश्वसंवेद्यम् प्रकीर्तितम् पूर्ण संयोगभावाख्यम् पञ्चमम् ब्रह्म तत्स्मृतं तस्मात्परो न संयोगकथ्यते योगिभिः सदा स एव गणनाधस्तु स्वानन्दाख्यप्रकीर्तितः तत्र निजप्रकाशाख्यं चित्तं तिष्ठति सर्वकम् अधः परमयोगाख्यं ब्रह्ममायाविवर्जितं तदेव योगिभिः प्रोक्तं निवृत्तिसुखदायकं न तत्र जगदां तद्वच्च तेन योग इति स्मृतः ब्रह्मणि तन्मयत्वेन स्वस्य संयोग उच्यते तस्मान्निवृत्तिरापन्ना तेन निवृत्तिसंज्ञकं स्वसंवेद्यस्य नाशेन लभ्यदे ह्यसमाधिना न गदं, गदं ब्रह्म संयोग तत्रा योगप्रकाशाख्यं चित्तं निरोधसं इदं तिष्ठति चापवादेषु निवृत्तिसुखदायकम् इदं पञ्चविधं चित्तं कथितं ते प्रजापदे जगत्सु ब्रह्मसु क्न्यं नानाप्रकाशदायकं भूमयः पञ्चविख्यादाश्चित्तस्य विविधात्मनः वी भूमिनां त्यागभावेत्तच्चित्तं ब्रह्ममयं भवेद् अर्धः पञ्चविधं चित्तं त्यज त्वं योग योगी भविष्यसि दक्ष चिन्तामणौ न संशयः संयोगयोगसंज्ञ निरोधाक्यं मदं बुधैः अधः परो निरोधो न विद्यते सर्वसम्मदे सार्वभौमात्मधर्मेण योगी भवति मानवः तत्र शान्तिं लभे चित्रम् त्यक्त्वा भूमि भवं भ्रमं योगरूपे सुखं यद्वै योगिनां हृदि वर्तते दे तदेव कथितुं दक्ष शक्यते न कदाचन मनोवाणीमयं चित्तं चतुर्विधं प्रकीर्तितं मनोवाणीविहीनं तु निरोधसंज्ञकं मदम् अधो योगसमाख्यादो मनोवाणीमयो न मनोवाणीविहीनोऽपि कथ्यते नैव योगिभिः कीदृश्यं ब्रह्म तत्राकं योगेन कीदृश्येन च ब्रह्मभूतस्वयं जात येभ्यः शान्तिं लभेन्नरः योगे योगी नरो जातस्तत्र न ज्ञायते कदा ब्रह्म वा साधनं किञ्चित् ब्रह्मभूतस्य कारकं तन्मयत्वं ब्रह्मणि न च तन्मयवर्जनं अथ शान्तिं समागृह्य शान्तियोगपरो भवेद् पञ्चविधेषु चित्तेषु दृश्यते जगदां परं ब्रह्मणामैश्वरं सौख्यं रसं तत्र धारयेद नानारसविहीनं तु चित्तं कृत्वा प्रजापदे तत्यक्त्वा स भवेद्योगी शान्त्या शान्तिमवाप्नुयात् श्रोदसोर्णवमानन्दात् गच्छन्त्यप्रेरितान्यपि प्रारब्धेन तथा योगि सत्तमः योगिसत्तमः नानाद्वन्द्वविहारेषु समभावपरायणः योगी भवति शान्त्या च सदा योगसुखेरतः ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादो योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन सार्वभौमयोगो नाम पञ्चमोऽध्यायः यदि योगगीतासूपनिषत्सु सुगमासु ओम।